अथ चतुश्चत्वारिंशम् दशकम् गूढम् वसुदेव गिरा कर्तुम् ते निष्क्रियस्य संस्कारान् हृद्गत होरा तत्त्वो गर्गमुनिस्त्वद्गृहम् विभो गतवान् नन्दोऽथ नन्दितात्मा वृन्दिष्ठम् मानयन्नमुम् यमिनम् त्वत्संस्कारान् विधातुमुत्सुकधीः यदुवंशाचार्यत्वात् सुनिभृतमिदमार्यकार्यमिति कथयन् गर्गो निर्गत पुलकश्चक्रे तव नामानि कथमस्य नामकुर्वे कुर्वे सहस्रनाम्नो ह्यनन्तनाम्नो वा इति नूनम् गर्गमुनिश्चक्रेतव नाम नाम रहसि विभो कृषिधातुणकाराभ्याम् सत्तानन्दात्मताम् किलाभिलपत् जगदघकर्षित्वम् वा कथयदृशिः कृष्णनाम ते व्यतनोत् अन्यांश्च नाम च रामादीन् अतिमानुषानुभावम् न्यगदत्त्वामप्रकाशयन्पित्रे स्निह्यति यस्तव मुह्यति स न मायिकैः पुनः शोकैः दृह्यति यः स तु नश्येदित्यवदत्ते महत्त्वमृषिवर्यः जेष्यति बहुतरदैत्यान् नेष्यति निजबन्धुलोकमलपदम् श्रोष्यति सुविमलकीर्तीरस्येति भवद्विभूतिमृषिरूचे अमुनैव सर्वदुर्गं। तरितास्थकृतास्थमत्र तिष्ठध्वम् हरिदेवेत्यनभिलपन्नित्यादिः त्वामवर्णयत्स मुनिः गर्गेऽथ निर्गतेऽस्मिन् नन्दितनन्दादिनन्द्यमानस्त्वम् मद्गदमुद्गतकरुणो निर्गमय श्रीमरुत्पुराधीशा इति चतुश्चत्वारिंशम् दशकम्